विघ्नराज शङ्खं चक्राङ्कुशौ स्वैः कुसुमशरगुणैःष्वेक्षुचापं कुठारम् शालीगुच्छं कराब्जैर्दधतमत सदा मूषकारूढमीशम् स्वर्णाभं चन्द्रचूडम् त्रिनयनसहितं सिद्धलक्ष्म्या च वागीश्वर्या च युक्तं गजवरवदनं विघ्नराजं भजेऽहम्